हरि ओ हूता सीरेन्द्र मृणस्पदेनाभा पृथिव्या दिवो ब्र सीयत ओ जिषणी साम व्यय वाजस् हूतर्जय हूताज् नून पात मूतिजेता पराजित इन्द्रान्देवगुस्वर्विदाम् पथिवीर्मधुमतमिर्नराशंसेनतेर्यसाव्ययत्वाजस्य हूतर्जज हूता यक्षदीडाभिरीन्द्रमीडितमाजुह्वानमर्त्यम् देवो देवैः सविर्जुव होता यक्षद्वरिः खिन्द्रान्निगद्वरां ऋघवान्द्रजापसं वसुभिरुद्रैरादित्यैः स युग्निर्बरिहिरा सदवे यत्वाजस्य होतर्ज होता यक्षदोजो नव्यर्जग् स हुवद्वार इन्द्रमावर्दयन् सुप्राण अस्म निद विश्रयता मृतावृधुद्वार इंद्रा मीधुघे व्यन्वाज से हूतर्ज हूता दुखे इंद्र से धेनु सुदुघे मतरामि स वातरौ नेजस वसम्रमर्धताम भीता से हूतर्ज होतारक्षद्दैव्या होताराभिखजा सखाया हविखेन्द्रं विखजतः कवी देवो प्रचेतसावीन्द्राय दत्त इन्द्रियं भीतामाजस्य होतर्ज होता रक्षत् तिस्रो देवीर्नभे खजन्त्रयस्त्रिधातमुपस इडा सरस्वती भारती इन्द्रपत्नीरे हिखमथिव्यान्त्वाजस्य होतर्जज होता यक्ष त्वष्टारमिन्द्रन्दे॒वाम्भिकजग् सुयजं हृत श्रि॒यं पुरुपज्ञ सुरेतसं मघुवनमिन्द्राय मधुभासमञ्जन् पथिभिः सुगेभिः स्वदातिजज्ञम् मधुना घृतेन वेत्त्वाज्यस्य होतर्यज होता रक्षदिन्द्र गुस्वाहाजस्य स्वाहा मेदसः स्वाहा स्फूकानाग् गुस्वाहा स्वाहाघृतीनाग् गुस्वाहा व्यसूप्नीनाम् स्वाहा देवा आज्यपायुखाणा इन्द्र आज्यस्य व्यान्तु देवं वरीहिरिन्द्र सुदेवान् देवैर्वीरवत्स्तीर्णां वेद्यामवर्धयत् वस्तुवृतं प्राक्तो राया वरेह्तुवत्यगाद्वसुहनि वसुदेयस्य वेतु यज देवीर्द्वार इन्द्र सङ्घा देव्यीर्बीरजामन्नवर्धयन् आवत्थेन तरुणेन कुमारेण च मीवता पर्वाणविन्द्रेणुककाटम् नुदन्ताम् वसुहने वसुरे यस्य व्यान्तु जज देवी उघासान इन्द्राञ्जज्ञयप्रयत्यहवेताम् दैवीर्विषः प्रायाधिष्ठाग्निसुप्रीते सुधिते वसुहने वसुरे यस्य वीताञ्जय देवी देवीज्योष्टिवसुधिती देवमिन्द्रमवर्ध्वताम् प्रयाव्यन्याकाद्वेकाग्गुस्याज्ञा वक्षद्वसुवार्जाणि यजमानाय शिक्षिते वसुहने वसुधे यस्य वीताञ्ज देवी ऊर्जाहुतीदुहे सुदुघे पयसेन्द्रमवर्धताम् न इष ऊर्जमन्यावक्षिङ् समीतिमन्या नवेन पूर्वान् दयमाने पुराणेन नवमधाताम् ऊर्जमुर्जाहुति ऊर्जयमाने वसुवर्जाणि यजमानाय शिक्षिते वसु अने वसुदेयस्य विहिताञ्ज देवादेव्याहूतारा देवमिन्द्रमवर्धताम् हृतादृश सा वाष्टां वसुवार्जाणि जजमानाय शिक्षितौ वसुभनेर्वसुरे यस्य विहितान्यज देवी अस्ति सिरस्ति सरो देवीः पतिमिन्द्रमवर्धयन् अस्पृशद्भारती दिवक् हृद्रैरजज्ञम् सरस्वतीडाह्वसुमतीयान्वसुभने वसुरे यस्य व्यान्तु देव इन्द्रो नराशगूहस्त्रिभरूत स्त्रिबन्धुरो देवमिन्द्रमवर्दयत शतेन शितिपृष्ठानामाहितः सहस्रेण प्रवर्तते मित्रावरुणेन स्याहुवत्रमरिहतु बृहस्पतिस्तोत्र अश्विनाध्वर्णवम् वसुवने वसुदेयस्य वेतुषज देवो देवैर्वनस्पतिर्हिरण्यपर्णो मधुशाखा तु विफलो देवमिन्द्रमवर्धयतु दिववग्रेणास्तु क्षुदान्तरिक्षं ऋथिमीमदृग् यद्वसुवने वसुधेयस्य दे वेतुष देवम्बरैर्वारिथीनां देवमिन्द्रमवर्धयतु श्वासस्थमिन्द्रेणासन्नमन्यापरिह्य मुख्यभ्याभूद् वसुवने वसुरे यस्य वेतु झज देवोऽग्निः सृष्टाकृद्देवामिन्द्रमवर्धयत् स्विष्टाम् कुर्वान् सृष्टा वृत् स्विष्टामध्याकरोतु नो वसुवने वसुरे यस्य तु जज अग्निमध्य अवतारमवृणीतायञ्जयमानः पचन् भक्तिः पचन् पुरोडाशम् बध्नन्दिन्द्रायच्छागम् सुपस्था अद्य देवो वनस्पतिरववदिन्द्रायच्छागेन अगत्तम् मेन स्तः प्रतिपचताग्रभीरवी व्रजत्पुरोडाशेन त्वामधि भूता यक्षत्समिधानं महद्यशः सुसमिद्धं वरेण्यमग्निमिन्द्रम् वयूधसम् गायति छन्द इन्द्रियन्त्र भिङ्गां वयोध दर्वयत्वाच्चस्य हूतर्जज भूता यक्षत्र नूनपातमुद्विदञ्च ग्रवमदि त्रिदधेषु चिमिन्द्रं वयूधसम् उष्णीयाञ्छन्द इन्द्रियम् नित्यवाहङ्गाम् पयोदर्वेत्वाजस्य होदरज होतादीडेऽन्यमीडितम् वृत्रान्तमीडाभिरिडग्नसहासोममिन्द्रम् पयोधसम् अनुष्टुवाञ्छन्द इन्द्रियम् पञ्चामिङ्गाम् पयोद तद्भे त्वाजस्य होदरज होता यक्षत् सुबर्हि खम्बुखन्वन्तमृतसीदन्तं बर्हि प्रिये मृतेन्द्रं वयोधसं बृहतीवत्सङ्गां वयोदृदयत्वाच्चस्य होतर्ज होता यक्षद् वचस्वतीः सुप्रायणा ऋता मृधु द्वारो देवीरहिरण्यैरब्रह्माणमिन्द्रं वयोधसं पङ्क्तिं छन्द इहेन्द्रियं नृजवाहङ्गां वयो ददर्भ्यन्त्वाजस्य होतर्ज होताक्षस्थुपे शसा सुल्पे व्रयति उभे रक्तो घासा न दर्शते विश्वमिन्द्रं वयोधसं तिष्ठुवाञ्छन्द इहेन्द्रियं वष्टमाहङ्गां वयो ददर्वीतामाजस्य होतर्ज हूताजक्षप्र चेतुसा देवानामुत्तमञ्जसो होताराधव्याकवीसयुजेन्द्रं वयोधसं जगतीचन्द इन्द्रियमलर्वाहङ्गां वयो तदर्वितामाजस्य होतर्ज हूताजक्षत्रे सस्वती अस्ति श्रो देवीर्हिरण्यैर्भारुतीर्बृहतिर्महीः पतिमिन्द्रं वयोधसं विराजन् छन्द इहेन्द्रियन् धेनुङ्गान्वयो दर्व्यन्त्वाजस्य होतर्जज होता चक्षुरे तसन्वष्टारम् पुष्टिवर्धन रूपाणि विभ्रतम् वृथक् पुष्टिमिन्द्रं वयोदसं द्विपदञ्चन्द इन्द्रियमुक्षाणङ्गान्न वयोदर्वेत्वाज्यस्य होतर्जज हूता यक्षत् वनस्पतिशमितारंशत् क्रतुं हिरण्यपर्णमुक्तिरञ्जनम् विव्रतं वशिम्बमिन्द्रं वयोधसं कपुवंशन्न हतं वयो ददर् वेत्वाज्यस्य होतर्ज होता यक्षत् स्वाहा कृतीरग्निन्द्रिय पतिम् पृथक् वरुणम्बे कजं अतिच्छन्दसं छन्द इन्द्रियं वृदृकभङ्गाम्बयो ददर्भन्त्वाजस्य होत ऋजो देवम्बरिर्वयोधसं देवमिन्द्रमवर्धयतो गायत्र्यन्दसेन्द्रियं चक्षुरिन्द्रिवयो ददर्वसुवनिर् वसुधेयस्य वेतु जजो देवीर्द्वारो वयो धसुचिमिन्द्रमवर्धयन् ऊष्णीयाच्छन्दसेन्द्रियं प्राणमिन्द्रे द्वयो ददर्वसुवने वसुधेयस्य दे व्यन्तुषज देवि उकासार्ता देवमिन्द्रं भयोधसं देवी देवमवृधतम् अष्टुगाच्छन्दसेन्द्रियं बलमिन्द्रे द्वयो ददर् वसुवनेर्वसुधेयस्य वसु वीताञ्जज देवी ज्योष्टिवसुधिती देवमिन्द्रं पयोधसन् देवी देवमवर्धतम् बृहत्यच्छन्दसेन्द्रियुश्रोत्रमिन्द्रे वयो तद्वसुवनेर्वसुधेय सुीतञ्जय देवी ऊर्जाहुती दुगे सुदुगे पयसेन्द्रं पयोधसं देवी देवमवर्धतम् पञ्चच्छन्दसेन्द्रियशुक्रमिन्द्रियद्वयोदर्वसुवने वसुधेयस्य वीतञ्जो देवादेव्याहूतारा देवमिन्द्रं वयोरसं देवौ देवमवृधतम् तिष्ठुवच्छन्दसेन्द्रियन्विखिमिन्द्रि द्वयोदर्वसुवने वसुधेयस्य वीतञ्जो देवी अस्ति सृस्तिसरो देवीर्वयोरसंवतिमिन्द्रमवृधयन् जगत्याच्छन्दसेन्द्रियज्ञ्रे द्वयो दधर्वसुवने वसुरे यस्य व्यान्तुज देवो नराशुंसो विपदाच्छन्दसेन्द्रियं भगवमिन्द्रे द्वयो ददृसुवने वसुधे सव्येतुषजो देवं वरिर्वरितीरं देवमिन्द्रं वयोधसन् देवं देवमवर्धयतु ककुमाच्छन्दसेन्द्रियं जश इन्द्रे द्वयो ददृसुवनेर्वसुधेयस्येतुषजो अतिच्छन्दसान्दसेन्द्रियङ् क्षत्रमिन्द्रे वसुवने वसुधेयस्य वेतुज अग्निमद्य होतारमविणीताय यजमानहा पचन् वग्निः पचन् पुनोडाशम् बध्नान्द्राय वयो दसेच्छागम् सुवस्था अद्य देवो वनस्पतिरभवदिन्द्राय वयो दसेच्छागेन अगत्तं मे दत्ताः प्रतिपचताग्रभीदवीवृदत्पुरोडाशेन त्वामदिय अरेखे इति अष्टाविंशा